महाकाली काली के पाप कालिके पापहारिणि धर्मार्थमोक्षदे देवी नारायणी नमोऽस्तु ना ते काली के पाप कालिके पापहारिणि धर्मार्थमोक्षदे देवी नारायणि नमोऽस्तु ना ते लिकाली महाकाली कालिके पापहारिणि धर्मार्थमोक्षदे देवी नारायणी नमोऽस्तु ते काली काली महाकाली कालिके पापहारिणि धर्मार्थमोक्षदे नारायणि नमोऽस्तु ते पापहारिणि धर्मार्थमोक्षदे देवी नारायणि नमोऽस्तु के पापहारिणि धर्मार्थमोक्षदे देवी नारायणि नमोऽस्तु ना काली